श्रीहरये नमः अत एकोनविंशोऽध्यायः श्रीशुक उवाच इति वैरोचनेर्वाक्यं धर्मयुक्तं सुसुनृतं निशमयभगवान् प्रीत प्रतिनन्त्येधम् अब्रवीत् श्रीभगवानुवाच वचस्तवैतज्जनदेवसूनृं कुलोचितं धर्मयुतं यशस्करं यस्य प्रवाणं मृगवसां पितामहकुलवृद्धप्रशान्तः न हेतेऽस्मिन् कुले कश्चित् निःसत्व कृपणः पुमान् प्रत्याख्याता प्रतिश्रुतयो बाधाताद्विजातये न सन्ति तीर्थे यदि चार्ति नार्तिता पराङ्मुखाये त्वमनस्मिनो नृपाहा युष्मत्कुले यद्य स प्रह्लादमुद्भाति यतोुभख्यें यतो जातो हिरण्याक्षश्चरण्येक इमामहे प्रतिवीरं दिग्विजयेनाविन्दतगतायुतः यं विनिर्जित्य कृश्रेण विष्णो क्षमोद्धार आगतम् नात्मानं जैनं मेने तद्वीर्यं भूर्यनुस्मरन् निशम्य तद्वतं भ्राता हिरण्यकशिपुः पुरा हन्तुं भ्रातृहणं जगामनिलयं हरे हे समालोक्य शूलपाणिं कृतान्तवत् चिन्तयामास कालज्ञो विष्णोर्मायाविनाम्बरः यतो यतोऽहं तत्रासौ मृत्युप्राणाभृतामिव अतोऽहमस्य हृदयं प्रेवेक्ष्यामि परादृशः एवं स निश्चित्यरिभो शरीरम् आधावतो निर्विवेशे सुरेन्द्र श्वासा निलान्तर्हितसूक्ष्मदेहस्तत्प्राणन्द्रेण विविघ्नचेताः सतन्ति केतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद क्षां ध्यां दिशक्कं विवरान् समुद्रान् विष्णुं विचिन्वन्न दददर्शवीरः अपश्यन्निति हो वाचमयान्विष्टमितं जगत् भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् वैरानुबन्धये तावानामृत्योरिह देहिनाम् अज्ञानप्रभवो मन्योऽहम्मानोपभ्रमितः पिता प्रह्लादपुत्रस्ते तद्विद्वान् द्विज वत्सलः स्वमायोर्द्विजलिङ्गेभ्यो देवेभ्यो धात्स याचितः भवानाचरितान् धर्मानास्तितो गृहमेदिभिः ब्राह्मणैः पूर्वजै सूरैरन्यश्चोत्तामकीर्तिभिः तस्मा त्वत्तोमहीमीषद्वृणेकं वरधर्षभत् पदानि त्रीणि तैत्येन्द्रसंमितानि पदा मम नान्यत्ते कामये राजन् वधान्या जगतीश्वरात् नयनः प्राप्नोति वै वेद्वान्यावधर्त प्रतिग्रहं अहो ब्रह्मणधायात वाचस्ते वृद्धसम्मताः त्वं बालो बालि समतिस्वार्थं प्रत्युभूतो यथा मां वचोभिः समाराध्य एकमीश्वरम् पदत्रयं वृणीते दासुषं बुद्धिमाद्दीपदासुषं ना नपुमान्नामुपव्रज्य भूयो याचितुमर्हते तस्माद्वृत्तिकरीं भूमिं पटोकामं प्रतीक्ष मे श्रीभगवानुवाच यावन्तो विषयाः प्रेष्टास्त्रिलोक्याम् अजितेन्द्रियम् न शक्नुवन्ति ते सर्वे प्रतिपूरयितुम् नृपान् दृभिक्रमैयन्तुष्टो द्वीपेनापि न पूर्यते नववर्षसमेतेन सप्तद्वीपवरेच्छया सप्तद्वीपातिपतयो नृपावैन्यगयाधयः अर्धैकामेर्घतानान्तं दृष्णा यायिति न श्रुतं यदृच्चयोपपन्नेन सन्तुष्टो वर्तते सुखं नासन्तुष्टस्त्रिभिर्लोकैर् अजितात्मो अजितात्मोपसादितैः पुंसोऽयं संस्कृतेर्हेतो असन्तोषोऽर्थकामयोः यदृश्च यावुपपन्नेन संतोषो मुक्तये स्मृतः यदृश्चालाभतुष्टस्य तेजो विप्रस्य वर्धने तत्प्रंशां यति असन्तोषा तम्बसा आसु सूक्ष्मणि हे तस्मात् त्रीणि एतावै तैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् श्रीशुक उवाच इत्युक्तसहसन्नाः वाञ्छातः प्रतिगृह्यतां वामनाय महीं दातुं जग्राह जलभाजनम् विष्णवेषां प्रधास्यन्तम् उसनासुरेश्वरं जानं चिकीर्षितं विष्णो शिष्यं प्राहविधाम्बरः शुक्र उवाच एष वै रोचने साक्षाद् भगवान् विष्णुरव्ययः कस्य पाददिदेर्जातो देवानां कार्यसाधकः प्रतिश्रुतं त्वयैस्तस्मै यदनर्तम अजानता न साधु मन्ये दैत्यानामहानुभगतो नयः एष ते स्थानमैश्वर्यं श्रियं ते जो यशश्रुतं दास्यत्याश्चिद्यशक्राय मायामाणवकोहरिते त्रिपिक्रवैरिमान् लोकान् विश्वकाय क्रमिष्यते सर्वस्वं विष्णवे धत्वा मूढवर्तिष्य सेकतं क्रमतोघाम्बैकेन द्वितीयेन दिवं विभोः कञ्चकायेन महता तार्तीयस्य कुतो गतिः निष्टान्ते नरके मन्ये ह्यप्राधातु प्रतिश्रुतं प्रतिश्रुतस्य योनीशः प्रतिपादयितुं भवान् न प्रशं धानं प्रशंसन्ति येन वृत्तिर्विभध्यते धानं यज्ञस्तपकर्म लोके धर्माययच यतः धर्माय यचसेर्थाय कामाय स्वजनाय च पञ्चता विभजन् वित्तमिहामुत्रच्च मोदते त्याहानृतं हित सत्यं पुष्पफलं विद्यात् आत्मवृषस्य गीयते वृषे जीवति तन्न स्यात् अनृतं तद्यथा वृषभुन्मूलः शुष्यति उत् वर्तते चिरात् एवं नष्टान् आत्मा शुष्येन्न संशयः परागृक्तमपूर्णं वा अक्षरं यद्धतोमि ते यत्किञ्चिदोमिति भ्रूया अतैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः सर्वं नेत्यनृतं ब्रूयात् सदुष्कीर्तिः स्वसन्मृतः स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे गोब्राह्मणार्थे हिंसायां नानृतं स्याद् जुगुप्सितम् इतिम्दवते महापुराणे अष्ट स्कंध वामन प्रादुर्भा एक गोपी का जीवन स्मरण गोविंद गोविंद सद्गुनाथ महराज के जय